इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्ये च नदीमुखैः समुद्रनिष्कुटे जाताः पारे सिन्धु च मानवाः ते वैरामाः पारदाश्च आभीराः कितवैः सह विविधं बलिमादाय रत्नानि विविधानि च अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु कम्बलान् विविधांश्चैव द्वारितिष्ठन्ति वारिताः प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली यवनैः सहितो राजा भगदत्तो महारथः आजानेयान आजानेयान् हयाञ्छिघ्रानादायानिलरंहसः बलिञ्चकृत्स्नमादाय द्वारितिष्ठति वारितः अश्मसारमयं भाण्डं शुद्धदन्तत्सरूपनसीन् प्राज्ञोतिषाधिपो दत्त्वा भगदत्तो व्रजत् तदा